हरि ओम् श्रीजगदम्बिकायै नम अथ श्री देवी भागवते महापुराणे प्रथमस्कन्धे पंचमोध्यायः ऋषय सुतास्माकम् मनःकामम् मग्नम् संशयसागरे यथोक्तम् महदाश्चर्यम् जगद्विस्मयकारकम् यन्मूर्धा माधवस्यापि गतो देहात् पुनः परम् हयग्रीवे ततो दातसर्वकर्ता जनार्दनः वेदोऽपि सौति यम् देवम् देवाः सर्वे यदाश्रया आदिदेवो जगन्नाथ सर्वकारणकारणः तस्यापि वदनं छिन्नं दैवयोगात् कथं तदा स तत्सर्वम् कथय शूत्रम् महामते सूतवाच। शृण्वन्तु मुरय सर्वे सावधानासमन्ततः चरितं देवदेवस्य विष्णु परमतेजसः कदाचित् दारुणम् युद्धम् कृत्वा देव सनातनः दश वर्षसहस्राणि परिश्रान्तो कृत्वा पद्मासनम् विभु अवलम्ब्य धनुश्चर्यं कण्ठदेशे धरास्थितम् दत्वाभारम् धनुष्कोट्याम निद्रा मा परमापतिः सन्तत्वा दैव योगा च निद्रितः तदा काले न कियता सर्वे सवासवाः ब्रह्मे च सहिताः सर्वे यज्ञं कर्तुम् समुद्यता। गता सर्वे वैकुण्ठं द्रष्टुम् देवं जनार्दनम् देवकार्यार्थसिद्ध्यर्थं मखानामधिपम् प्रभुम् अदृष्ट्वा तम् तदा तत्र ज्ञानदृष्ट्या विलोक्यते यत्रास्ते भगवान् विष्णु जग्मु तत्र तदा सुरः तदृशुस्ते तदेशानम् योगनिद्रावशम् गतम् विचेतनम् विभुम् विष्णुम् तत्रा साञ्चक्रिरे सुरा स्थितेषु सर्वदेवेषु निद्रा सुप्ते जगत्पतौ चिन्ता मा सर्वे ब्रह्म पुरोगमः तनुवाच ततश्चक्र किं कर्तव्यं सुरोत्तमः निद्राभङ्ग कथं कार्य चिन्तयन्तु सुरोत्तमः तमुवाच तदा शम्भु निद्राभङ्गे दूषणम् कार्यं चैव प्रकर्तव्यम् यज्ञस्य सुरसत्तमः उत्पादिता तदा वम्रे ब्रह्मणा तदा तया भक्षयितुं तत्र धनुषोग्रम् धरास्थितम् भक्षिते अग्रे तदा निम्नम् गमिष्याति शरासनम् तदा निद्रा विमुक्तोऽसौ देवदेवो भविष्यति देवकार्यं तदा सर्वं भविष्यति न संशयः सर्वम्ब्रीं सं निदेशाथ देवदेवः संसनातनः तम्भवाच तदा बम्ब्री देवदेवस्य मापते निद्राभङ्ग देवस्य जगतां गुरो निद्राभङ्गकथाच्छेदो दम्पत्यो प्रीतिभेदनम् शिशुमातृविभेदश्च ब्रह्मरत्या समस्मृतम् तत् कथं देव देवस्य करोमि सुखनाशनं। किं फलं भक्षणात् देव येन पापं करोम्यहम् सर्वश्वार्थशोलोक कृते पातकं जले तस्मादहं करिष्यामि सा स्वास्थ्यमेव प्रभक्षणम् ब्रह्मोवाच तव भागं करिष्यामो मखम् मध्ये नो विष्णुं बोधयमाचरम् होमकर्मणि पार्श्वे च भवेदानात् पतिष्यति तत् ते भागं विजानीहि इत्युक्ता ब्रह्मणा बम्री धनुषो ग्रं त्वरान्विता चखाद संस्थितं भूमौ विमुक्ता जातदा भवेत् पत्यञ्चायां विमुक्तायां मुक्ता कोटि तथोत्तरा शब्दवद्घोर तेन तत्रा सुरस्तदा ब्रह्माणं क्षुभितं सर्वं वसुधा तदा समुद्राश्च समुद्रिग्ला जलत्र तथा चोग्रा पर्वता च, उल्का पाता, पाता बभूव दिशो घोरतमा चिन्ता मा पुसुरा सर्वे किं भवेष्यति दुर्दिने एवं चिन्तयतां तेषां मूर्धा विष्णुशकण्डलः घटश्च मुकुचक्वापि देवदेवस्य तापसः अंधकारे तथा घोरे शान्ते ब्रह्म रोतदा शिरोहीणम् शरीरम् तु ददु शाते विलक्षणम् दृष्ट्वा कबन्धम् विष्णुस्ति विस्मितः सुरसत्तमः चिन्ता सागरम् मग्ना च रुदूषोकर्चितः किं प्रभो जातम् अत्यद्भूतम् ममानुषम् वैशसं सर्वदेवानां देवदेव सनातन मायेयं कस्य देवस्य ययातेद्य शिरोधृतम् अच्छेद्यस्तम् अभेद्योऽसि अप्रदाह्योऽसि सर्वदा एवं गते त्वयि विभो मा मरिष्यन्ति च देवतः कीदृश त्वयि न स्नेह श्वासदेव नामहे विघ्नकृतो दैत्यै नयक्षै यक्षै न च देवैरेव कुतकस्य दूषणं चरमापते पराधीना सुरा सर्वे किं कुर्म च शरणं नैव देवे च सुराण्डां न चै चासात्विके माया राजसे न च तामसे ययाच्छिन्नं चिरस्तेऽद्य शस्य जगद्गुरो तदा दृष्ट्वा देवान् शिवपुरोगमान् बृहस्पति तदोवाचमयन् वेद वित्तमः हृदितेन महाभाग कण्डितेन तथापि किम् उपायश्चात्र कर्तव्य सर्वथा बुद्धिगोचरः दैवं पुरुषकारश्च देवे च उपायश्च विधातव्यो दैवात् फलति सर्वथा इन्द्रो वाच दैवमेव परं मन्ये धिक् पौरुषम् सुराणां चैव पश्यताम् ब्रह्मो वाच अवश्यम् एव काले नापादितं च शुभं वा शुभं वापि दैवं कोपि क्रमेत् पुनः देहवान् सुख दुःखानां भोक्ता नैवात्र संशय यथा काल वशात् कृतं शिरोम्भे शम्भुनापुर तथैव लिङ्गपात च महादेव चापतः तथैव हरे मूढा पतितो लवणाम्बसि सहस्रभ सम्प्राप्ते दुःखं चैव शजीपते स्वर्गद्रंश तथा कमले मानसेश्वरे एते दुःखस्य भोक्तार केन दुःखं न भुज्यते संसारेऽस्मिन् महाभागात् तस्मात् शोकं त्यजन्तु चिन्तयन्तु महामायाम् विद्यादेवीं सनातनीं सा न कार्यम् त्रि निर्गुण प्रभृतिपरा ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा यया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम् इत्युक्त्वा वैश्वरान् वेधा निगमानादिदेशः देहियुक्तान् स्थिता नगरे सूर्यकार्यार्थसिद्धये परमां देवीं ब्रह्मविद्यां सनातनीम् ऊढाङ्गीं च महामायां सर्वकार्यार्थसाधनीं तच्छ्रुत्वा वचनं तस्य वेदा सर्वाङ्गसुन्दराः तुष्टौ ज्ञानगम्याम् महामायाम् जगत् स्थिताम् नमो देवी महामाये विश्वोत्पत्तिकरे शिवे निर्गुणे सर्वभूते श्री माता शङ्करमक्कामदे तम् भूमि सर्वभूतानाम् प्राणाप्राणवताम् तथा धी श्रीकान्ति क्षमा शान्ति श्रद्धा मेधा धृति स्मृति मुद्गीते गायत्री व्यावृद्धि तथा जया च विजया धात्री लज्जा कीर्तिप्रहादया त्वां संस्थवनत्रे संविधान दक्षां दया रसयुताम् जननीं जनानाम् विद्यां शिवां चक्रलोकहितां वरेण्यां स्वर्बीजवास निपुणाम् भवनाशकर्त्रिं ब्रह्म हर शौरिसहस्रनेत्र भगवन्नि तूर्या भुवनाधिनाथ ते तत्कृता सन्ति ततो न मुख्या माता यतस्तरजङ्गमाणाम् सकलभुवनमेत यसि जननि देवान् विष्णुरुद्राजमुख्यान् शिथिलय जननं तैः कार्यस्य एकरूपाय न खलु तव कथञ्चित् देवि संसारलेश न ते सकलभुवने कोऽपि निपुणो न नाम्नाम् सङ्ख्या ते कथितुमयि ग्रो ज्योतिस्पुरुश यदल्पं कीलालम् कलयितुमशैक्तास्तनरे कथं पारावार कलनचतुरे जागृतमति न देवानां मध्ये भगवति तवानन्दविभवम् विजा नास्त्येकोऽपि त्वम्य भुवने काशीजननी कथम् इच्छा विश्वम् सकलमपि चैकारचयसि प्रमाणं प्रेतस्मिन् निगमवचनं गिरीहैवासीतं निकलजगतां कारणमहो चरित्रं ते चित्रं भगवति मनो नो व्यथयति वाचे सकलनिगमो निगमो गोचरगुण प्रभावं संयस्मात् स्वयमपि न जानासि परमम् न किं जानासि त्वं जननि शिवे किं वा नाप विविधिषसिं मधुजित हरे किं वा मात दुरितततीरे ततिरेषाय भवत्या भवत्यापादाब्जे भजन निपुणे क्वास्ति दुरितम् उपेक्षा किं चेयं तव सुरसमूहेति विषमा हरिर्मुनो नाशो मतमिहज माश्चर्यजनकम् महद्दुःखं महते तमसि जननच्छेदकुशलात् न जानीमो मौ मौले विघटनविलम्ब कथमभूत् दोषं सकलसुरपादितं वेविचित् किं वा विष्ट्वमरजनितं दुष्कृतं पातितं ते विष्णुर्वा किं समरजनित कोऽपि गर्वोऽति वेगात् चेत्तु तव विलितं नैव विद्मोत्रभावं किं वा समर दैत्ये समरविजिते शीतदेशे सुरम्ये घोरं तप भगवति वरं लब्धवद्भि भवत्या गमितमधुनाय विष्णुशेषं भवानी द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोद सिन्धो पुत्र्यां रोषिता किं त्वमाद्ये कस्मादीनां प्रेक्षसेनाथ हीनाम् क्षन्तव्यस्तेषाश्च जातपराधो वित्थाप्यैनम् मोदितां मां कुरुश्व एते सुरा साम् प्रसदं न मन्ति कार्येषु मुख्य प्रथित प्रभाव सुकर्णवात्तारस देवि तारय देवि उत्थाप्य देवं च कलाय दीनाथम् मूर्धायत क्वाम्बहरेण भिन्न नान्यस्त्युपाय खलु जीवने जथा सुधाय जीवनकर्मद्रक्षाय तथा जगज्जीवितदाशि देवी सुतवाच एवं सुदा तदा देवी गुणासीतामहेश्वरी प्रसन्ना परमाय वेदि साङ्गैश्च सामग्रै तानुवाचेत लावाणि चाकाशस्था शरीरिणि देवान् प्रति सुखै शब्दे जना शब्दै करी शुभा मा कुरुध्वम् सुराश्चिन्तम् स्वस्थास्तिष्ठन्तु चामरः स्तुताहम् निगमेकामम् सन्तुष्टास्मिन् संशयः यः पुमान् मानुषे लोके स्तौत्येताम् नाम किं स्तुतिम् पठिष्यति सदा भक्त्या सर्वान् कामान् अवाप्नुयात् शृणोति वा सूत्रमिदम् अधीयम् भक्त्यात्रिकालम् सततम् नरो यः विमुक्तदुःखे स भवेत् सुखी च वेदोक्तमेतन्ननुवेदतुल्यम् श्रृण्वन्तु कारणम् चाद्य यद्गतम् वदनम् हरे कारणम् कथम् का कार्यम् संसारेऽत्र भविष्यति उदधितनयाम् विष्णु संस्थिताम् मन्तिके प्रियाम् जहास वदनम् वीक्ष्य तस्यास्तत्र मनोरमं तया ज्ञानम् तया ज्ञातम् हरिनोरम् कथम् माम् हसति प्रभो विरूपम् हरिणा दृष्टम् मुखम् भेकेन हेतुना विनापि कारणेनाद्य कथं हास्य सम्भव स पत्नीव कृता तेन मन्य कोपयुता दाता महालक्ष्मी तमोगुणा तामसी तु तदा शक्ति तस्य देहे समाविशत् केनचित् कालयोगेन देवकार्यार्थसिद्धये प्रविष्टा तामसी शक्ति तस्य देहेति दारुणा तामस्यावि च देहासु कोपातिशयम् तदा शनकैः समुवाच इदम् इदम् पततुते शिरः स्त्रीस्वभावाच्च भावित्वात् कालयोगात् विनिर्गतः अविचार्य तदा दत्तशाप स्वसुखनाशनः स पत्नी सम्भवम् दुःखम् वैधव्यात् अधिकम् इति विचिन्त्य मनसेत्युक्तम् तामसी शक्तियो गतः अनृतम् साहसम् माया मूर्खत्वम् अतिलोभता अशोचम् निर्दयत्वम् च स्त्रीणाम् दोषा स्वभावजा सशीर्षम् वासुदेवम् तम् करोम्यद्य यथा पुरा शिरोस्य शापयोगेन निमग्नम् लवणाम्बुधौ अन्यच्च कारणम् किञ्चित् वर्तते सुरसत्तमः भवताम् च महत् भविष्यति न पुरा दैत्यो महाबाहु हयग्रीवोऽतिविश्रुतः तपश्चक्रे सरस्वत्या तीरे परमदारुणम् जपन्नेकाक्षरम् मन्त्रम् माया बीजात्मकम् मम निरहारोचितात्मा च सर्वभोगविवर्जितः ध्यायन्माम् तामसिं शक्तिम् सर्वभूषणभूषिताम् एवम् वर्षसहस्रम् च तपश्चक्रेति दारुणम् तदाहम् ताम् संरूपम् तत्र समागता दर्शने पुरतः तस्य ध्यातम् तत्ते न सिंहो परिस्थिता तत्र तम् अवोचम् अवो, अवो दयान्विताय वरम् ब्रूहि महाभाग ददाम्भि तव सुव्रत इति श्रुत्वा वचो देव्या दानभ्य प्रेम पूरितः प्रदक्षिणाम् च चकारे त्वरितः सदा दुष्काररूपम् मधीयम् स प्रेमोत्फुल्लविलोचनः भर्याश्रु पूर्णनयन तुष्टावस च मां तदा अयग्रीव उवाच नमो देवे महामाये सृष्टि स्थित्यन्तकारणे भक्तानुग्रह चतुरे कामधे मोक्षदेशिवे धराम्बुतेजः पवनख पञ्चानां च कारणम् त्वम् गन्धरसपूरूपाणाम् कारणम् स्पर्श जयोः घ्राणं च रस नाचखु श्रोत्रमिन्द्रियाणि च कर्मेन्द्रियाणि चान्यानि सत्त सर्वं महेश्वरी देवी उवाच किं तेऽभीष्टं बरं ब्रूहि वञ्चितं यद् ददामि परितुष्टास्मि भक्त्या ते तपसा च अद्भुतेन च अयग्रीव उवाच यथा मे मरणं न भवेत् तत्तथा कुरु भवेयम् अमरो योगी तथा जेयः सुरासुरी देवि उवाच जातस्य हि ध्रुवं मृत्युध्रुवं जन्मस्य च लोके भवेच्च कथमन्यथा एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम वरं वर य चेष्टं ते विचार्य मनसा किल अयग्रीव उवाच हयग्रीवाच मे मृत्यु नान्यस्माज् जगदम्बिके इति मे वाञ्छितं कामं पूरयस्व मनोगतम् देवी उवाच गृहम् गच्छ महाभाग कुरु राज्यम् यथा सुखम् हयग्रीवा धृते मृत्यु नते ते नूनम् भविष्यति इति दत्त्वा वरम् तस्मात् अन्तर्धानम् गता तथा मृदम् परमिकाम् प्राप्य सोऽपि स्वभवनम् गतः स पीडयति दुष्टात्मा मुनिन् वेदाश्च सर्वश्च न कोऽपि विद्यते तस्य अन्ताद्य भुवनत्रये तस्माच्छीर्षम् हयस्यास्य समुद्धृत्य मनोहरम् देहेऽत्र विशिरो विष्णो भष्टा संयोजयिष्यति हयग्रीवोऽथ भगवान् हनिषयतीतमासुरम् पापिष्ठम् दानभ्रम् क्रूरम् देवान्नाम् हितकाम्य सुत उवाच एवम् सुरान्तलाभा च सर्वाणी देवास्तदानि सन्तुष्टा तम् मोचो देवशिल्पिनम् देवाऊचुः कुरु कार्यम् सुराणाम् वै विष्णो शीर्षाभियोजनम् दानवप्रवरम् दैत्यम् हयग्रीवो हनिष्यति श्रोत उवाच इति श्रुत्वा वच तेषाम् त्वरान्वितः वाजिशीर्षम् च कर्तासु खड्गे न सुरसन्निधौ विष्णो शरीरे तेनाशु योजितम् वाजिमस्तकम् हयग्रीवो हरिर्जातो महामाया प्रसादतः कियता तेन कालेन दानवो मददार्पितः यत् तर्था सङ्ख्ये देवानाम् रिपुरोजसा यैरम् शुभमाख्यानम् शृण्वन्ति भुवि मानवः ते भवन्ति न संचयः महामाया चरित्रञ्च पवित्रम् पापनाशनम् पठताम् शृण्वताम् चैव सर्वसम्पत्तिकारकम् इति श्रीमद्देवी भागवते महापुराणे अष्टादशस्याम् संहितायाम् प्रथमस्कन्धे अयग्रीवावतारकथनम् नाम पञ्चमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु